श्रीसूर्यप्रातस्मरणस्तोत्रम् प्रातस्वरामि खलु तस्य वितुर्वरेण्यं रूपं हिमण्डलमृचोथतनुर्यजुंसी सामान्यस्य किरणा प्रभवादिहेतुं ब्रह्माहरात्मकमलक्षमचिन्त्यहेतुम् प्रातर्नमामि तरणिं तनुमाङ्मनोभिर्ब्रह्मेन्द्रपूर्वकसुरैर्णतमर्चितं च वृष्टिप्रमोचनमिले ग्रहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च प्रातर्भजामि सवितारमनन्तशक्तिम् पापोशत्रुभयरोगहरं परं च तं सर्वलोककलनात्मककालमूर्तिं भोगं कण्ठबन्धनविमोचनमादिदेवं श्लोकत्रयमिलम् भोः प्रातः प्रातः पठेत्तु य परं सुखम् अवाप्नुयात्